अथ श्रीमहाभारते आदिपर्वणि चत्वारिंशोऽध्यायः शौनक उवाच जरत्कारुरिति ख्यातो यस्त्वया सूतनन्दन इच्छामि तदहं श्रोतुं वृषेस्तस्य महात्मनः हा। किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि जरत्कानुनिरुक्तिम् त्वम् यथावद्वक्तुमर्हसि सौतिरुवाच जरेति दारुसंगितं दारु शरीरं दारुसञहितम् शरीरम् कारुतस्यासीत्तत्स धीमाञ्छनैः शनैः क्षपयामासतीव्रेण तपसेत्यत उच्यते जरत्कारुरिति ब्रह्मन् वासुकेर्भगिनी तथा एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् शौनक उवाच उक्तं नाम यथा पूर्वं सर्वं तच्छृतवानहं। यथा तु जातो ह्यास्तीक एतदिच्छामि वेदितुम् तच्छ्रुत्वा वचनं तस्य सौतिः प्रोवाच शास्त्रतः सौतिरुवाच सन्दिश्य पन्नगान् सर्वान् वासुकिः सुसमाहितः स्वसारमुद्यम्य तदा जरत्कारुं ऋषिं प्रति अथ कालस्य महतः स संशितव्रतः तपस्यभिरतो धीमान् स दारान्नाभ्यकाङ्क्षता सतुर्ध्वरेतास्तपसि प्रसक्तः स्वाध्यायवान्वीतभयकृतात्मा चचार सर्वो पृथिवीं महात्मा न चापि बभूव मृगया शीलः पुरास्य प्रपितामहः मृगान् विध्यन्वराहांश्च तरक्षून्महिषांस्तथा तरक्षून विविधान्वन्यांश्च चारपृथिवीपतिः स कदाचिन्मृगं विध्वा बाणेनानतपर्वणा पृष्ठतो धनुराधाय ससारगहने वने यथैव भगवान् रुद्रो विद्ध्वा यज्ञमृगं दिवि अन्वगछद्धनुष्पा पर्यट नृगो विदो जीवन्ग्छति वै वैवने पूर्व तो तत्वगति प्रति परीक्षि विद्धो से मृग दूर चापृतस्तेन मृगेण सहीपति परिश्रान्तः पिपासार्त आससादमुनिं वने गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतं भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि समुनिस्तं तु नोवाच किञ्चिन्मौनव्रते स्थितः तस्य स्कन्धे मृतं सर्पे क्रुद्धो राजा समासजत समुत्क्षिप्य धनुष्कोट्या सचैनं समुपैक्षता। समुपैक्षत न स शुभं वा यदि वा शुभं स राजा व्यथितस्तं तथा गतं दृष्ट्वा जगामनगरं मृषिस्त्वासीत्तथैव सः न हि तं राजशार्दूलं क्षमाशीलो महामुनिः स्वधर्मनिरतं भूपं समाक्षिप्तोऽप्यधर्शयत् न हि तं राजशार्दूलस्तथा धर्मपरायणं जानाति भरतश्रेष्ठस्तत एनमधर्शयत् तरुणस्तस्य पुत्रो भूत् तिग्मतेजा महातपाः शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः स परमासीनं सर्वभूतहिते रतं ब्रह्माणमुपतस्थे वै काले काले सुसंयतः स तेन समनुज्ञातो ब्रह्मणा गृह मे क्रीडमानेन स तत्र संरम्भात् कोपनोतीव विषकल्पो मुनेः सुतः उद्दिश्य तस्य यच्छ्रुत्वा रोषमाहरत् ऋषिपुत्रेण धर्मार्थे कृशेन द्विजसत्तम कृश उवाच तेजस्विनस्तव पिता तथैव तपस्विनः शवं स्कन्धेन वहति मा शृङ्गिन् गर्वितो व्याहरत्सृशिपुत्रेषु मा स्म किञ्चिद्वचो वदा अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु क्व पुरुषमानित्वं क्वते ते वाचस्तथाविधाः दर्पजाः पितरं द्रष्टा यस्त्वं शवधरं तथा पित्रा च कृतं मुनिजनश्रेष्ठ एनाहं भृशदुःखितः इति श्री महाभारते आदिपर्वण आस्तीकपर्वि परीक्षि उपाख्या चरशोध्याय